मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायम् 56 विनायककाशीप्रवेशम् श्रीगणेशाय नमः दक्ष उवाच प्रह्लादेन श्रुतं पूर्णं मदासुरचरित्रकं पुनः किं च कृतं योगिंस्तद्वदत्वं श्रुत्वा कथामृदं पूर्णं हर्षश्चेदसि मुद्गल जायते नात्र सन्देहो न तृप्तोऽहं भवाम्यदः सूद उवाच दक्षस्य वचनं श्रुत्वा मुद्गलो हर्षितो भवद उवाच तं महाभागं तत्वं शृणु च मुद्गल उवाच धन्योऽसि दक्षसारज्ञगणेशस्य कथामृदं श्रुत्वा हृष्यसि ते पुण्यं कथयामि कथानकम् मदासुरस्य संशान्तिं श्रुत्वा पप्रच्छ दैत्यपः प्रह्लादस्थं गृत्समदं विनया वनधकथाम् प्रह्लाद उवाच महद्भाग्यं मुने यद्येन संश्रावितं त्वया एकदन्तस्य माहात्म्यं परमानन्ददायकं तथापि न सुदृप्तो संश्रुत्वा ज्ञानप्रदायकं चरितं च पुनस्त्वं मे गणेशस्य कथां वद कश्यपश्य गृहे देवः कथम् पुत्रत्वमागतः कथं दैत्यौषदौ योगिन् विस्तरेण वदस्व माम् कथं स शिवपुत्रोऽभूत् कथं दुर्मदिकं प्रभुः अहनत्तं वदस्वत्वं सर्वज्ञोऽसि कृपानि कथं गणासुरं दैत्यं कापिलोह धवान्पुरा एतत् सर्वं वद स्वामिन्नेकदन्तचरित्रकं भवादृशा महाभागा नौकारूपेण संस्थिताः संसाराब्धौ नराणां वै मज्जदां तरणायतु मुद्गल उवाच एवं महायोगी तमुवाच सुहर्षिदः गुणाैर्युक्तम् गृत्समदः प्रह्लादम् पावधारकम् गृत्समद उवाच शृणुप्रह्लाद यत्पृष्टं तत्सर्वं कथयामि ते सुखदं च समासेन एकदन्तचरित्रकं पुरा कृतयुगे दैत्य गौड़े बभुवः नगरे गौड़ संौद्रकेदुपोधन तर पत्नी महाभागाशारदारूपचालिनी गर्भयुक्ता कदाचित्सा सा बभूव हर्षिता समये सुशुवे पुत्रौ यमलौ लोकभीदितौ नाम्ना चक्रे द्विजाधिस्स देवान्तकनरान्तकौ कदाचिन्नारदेनापि गत्वा तत्र शिवस्य च पञ्चाक्षरेणोपदिष्ठौ चरतुः परमं तपः दिव्यवर्षसहस्रैस्तु सन्तुष्टः सदाशिवः अभयं गुणरूपेभ्यो प्रदौ दैत्ययोः परं वरगर्वेण दैत्येन्द्रौ जित्वा सर्वं चराचरं तदस्तु कर्मनाशं तौ चक्रतुःपृथिवीतले न स्वाहा नः स्वधा कुत्र न वषट्कार एव च सर्वैः प्रार्थितो देव एकदन्तः प्रतापवान् तपसोऽग्रेण सन्तुष्टो प्रददौ वरम् कश्यपस्य च भविष्यामि प्रसिद्धये दैत्येन्द्रयोर्वधस्यैव मुक्त्वा गणपदीर्ययौ अथ देवजनित्री सा कदाचित् कश्यपं मुनिं जगादहास्यसंयुक्ता ह्यधिकृदसम्पुटा इन्द्रो विष्णुश्च सूर्यश्च देवाः पुत्राश्च मे भवन् स्वामिन् ब्रह्मकथं पुत्रः सम्भविष्यदि मे परं तदा मे निश्चलं चेदो भवेच्चैव न संशयः तस्य सेवां कर्तुमीहे तत्रोपायं वदप्रभो तस्या तद्वचनं श्रुत्वा गणेशस्य मनुं ददौ अष्टाक्षरं तया तेनाराधितो ह्येकदन्तकः सहस्रवर्षपूर्तौ तां वरदः समाययौ तया पुत्रो भव स्वामिन् याचितः स तथा करोद अदित्यां कश्यपाच्चैव सम्भूतः पुत्रतां गतः मायामास्थाय विघ्नेशच्चिक्रीडप्रागृतो यथा खोरा विराजास्तं जगालः विदार्य जठरं तस्य बहिर्यादो ममा रसा उद्धतौ धुन्तुरत्युग्रौ शुकरूपौ समागतौ धृत्वा तौ स्वालितौ शैले मृतौ दैत्यौ तथाकरोत् कदाचित्सहिता तेन स्नानार्थमतिर्ययौ तत्र तमकराकारो गन्धर्वश्च पदे तेनोड्डीनं कृतं पश्चात् बहिः स च ममारः शापमोक्तो भवित्रं तं प्रणम्य ययौ दिवम् उपवीदप्रधाने वै राक्षसा विप्रलिङ्गिनः पञ्चतं हुमायादा हदास्तेन क्षणेन ते कर्मणि प्रसमाप्तेदम् ब्रह्मविष्णवादयः सुराः मुनयश्च वसिष्ठाध्यानेमुर्भक्तिसमन्विताः इन्द्रस्तत्र मदेनैव संसिक्तो न मतं कश्यपेन समाज्ञाप्तस्तथापि ज्येष्ठभावदः परीक्षार्थं बालं हन्तुं प्रभञ्जनः प्रदितः सोऽपि भग्नोऽभूत्तदोऽग्निं समादिशद इन्द्रेणाज्ञापिदौ वह्निस्तं दग्धुं सहसागदः गिलितस्तेन बालेन महेन्द्रो विस्मितो भवद विनायकेन देवेन्द्रश्वासेन जठरे स्वके नीतस्तत्र सविस्तारं ददर्श सकलं जगद एवं नानाण्डकं दृष्ट्वा हद गर्वो भवत्स्वयं स्वयं न मार्गं बहिर्यादुमार्गं वर्षशतेन वै ततस्थं प्रार्थयामास विनायकमनामयं तेनापि बहिर्निष्कासिदो हरिः ततस्तेन महेन्द्रेण दृष्टं कौतुकमुत्तमं कालोद्भवं महच्चित्रं तच्छृणुष्वमहासुर विनायकस्य वर्षाणि जढरेश शतं स्वयं संस्थितश्च बहिस्तत्रक्षण एकस्तथाभवद ततस्थम् प्रणनामादौ स्तुत्वाच चकार साधुभावेन सभक्रिम नित्यमादराद तदः कदाचित्काशीपो मुनिगेकं समाययौ पुत्रस्योद्वाहसिद्ध्यर्थं कश्यपं तममन्त्रयद मुनिर्यज्ञेन रुद्धो वै पुत्रं तस्मै ददौ लघुम् उपाध्यायत्वसिद्ध्यर्थं विधानज्ञो विनायकं काशिराजोगणेशं सङ्गृह्यमार्गे जगामः तत्र ध्रूमाक्षदैत्येशं सूर्यास्त्रेण जखानसः तस्य पुत्रौ महावीर्यौ जघनश्च मनुस्मृतौ भक्षणार्थं समायाता विनायकमनामयं विनायकेन निःश्वासेन नीतौ गगने गदौ भ्रमन्तौ पतितौ तत्र नरांदग नरान्तकसुमन्दिरे नरान्तकस्ततस्ताभ्यां ज्ञात्वा वृत्तान्तमुल्बणं शतानि पञ्चरक्षांसि प्रशयामा सदैत्यपह तेन दृष्टा महावीरा राक्षसा गणपेन च हुङ्गारेण महोग्रेण ममृसर्वे भयातुराः ततः स काशिराजेन सहितश्च विनायकः काशीम् प्राप्तस्तदा लोकैरविशत्पूजितः परम् आदौ मुद्गलविप्रेणोपदिष्टः स महामनः काशिराजश्च काशीस्ताश्च जनासध्यान तत् मुद्दा महिमचा जा विचक्षणा कश्यप्य स्वयं पुत्रो भविष्य दिवधा चैतिया काश्यां वै विवायागमिष्य तस्य दर्शनमात्रेण भविष्यन्ति सुयोगिनः सर्वे काशीस्तभूतानि नरा नार्यो न संशयः ते सर्वे पूजयं स्थं ज्ञात्वा देवं विनायकम् स्त्रियः सर्वासमयादादर्शनार्थम् महापथे अनादृत्यपिदृन्भ्रादृन्न भर्दृन्न भक्तिपरायणाः महोत्सवो भवत्तत्र प्रवेशाख्यो महासुरा तत्रैकारोधिता नारीदेकम् तत्याजसोत्तमम् कालुस्फोटेन सा यादा सर्वादौतं विनायकं पश्यन्त्यस्या भवदेहलीना भक्तिसमन्विता यत्र तत्र जनैर्देवः पूजितश्च महापथे चचार तत्र दैत्यौ द्वौ बालरूपौ प्रचेरतुः विनायकेन हस्ताभ्यां चूर्णितौ दशयो जने पतितौ विस्मितालोका मेनिरेगणपं चदं तदो द्वौ चक्रवातस्य रूपेणैव समागतौ शिखां धृत्वा तयोस्तेन ममृदुस्फालितौ दृढौ ततः दैत्यो मार्गे व्यवस्थितः मुष्टिना बालकेनैव कदो मृत्युमवापसः काशीराजस्तदस्तं स नीत्वा च स्वगृहे स्वयं पूजयामास विधिव भावदः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्रीमगे महापुराणे विनायक का काशी प्रवेशो नाम षट्त ओम।